अथ तृतीयाष्टः सप्तमः प्रश्नप्रारम्भः ओ सर्वानवा एषोऽग्नौ कामान् प्रवेशयति योऽग्ने बाधाय व्रतमुपैति स कामप्रीता एनम् कामानानुप्रजायोः अतेजा अभीर्य स्यात् सजुहुयात् तोभ्यन्ता अङ्ग्यस्तम विश्वा सुक्षितयः पृथग् अग्ने कामाय येमिर इति कामानेवास्मिन् दधाति कामप्रीता येन कामाननुप्रयान्ते तेजस्वेवीर्यावान् भवति सन्ततिर्वा एषा यज्ञस्य यो योग्नीेनम् बाधाय व्रतमुपैति स यदुद्वायति विच्छित्तिरेवास्य सा तम् प्राञ्चतमुद्धृत्य मनसोपतिष्ठेत प्रजापतिः प्राजापत्यो यज्ञः मनसैव यज्ञकुम् सन्तनोति भूरित्याह भूगो प्रजापतिः भूतिमेवोपैति इवा एष इन्द्रियेण वीर्येणध्यरे यस्या हिताग्नेरग्निरपक्षादिति यावच्छम्यया प्रविध्येत् यदि तावदपक्षायेत् तगिम् सम्भरेत् इदन्त एकम् पर उत ब्रह्मणैवैनघुम् संहरति सैव ततः प्रायश्चित्तिः यदि परस्तरामपक्षाय एत अणुप्रजायावश्येत् सो एव ततः प्रायश्चित्तिः ओषधी एव एतस्य पशोन्वयः प्रविशति यस्य हविषे वत्सा तान यद्दुह्यात् या यातया यन्नदुह्यात् यज्ञपरुरन्तरियात् वायव्याञयवागोन्नर्वपेत् वायुर्वैपयसः प्रदापयिता स एवास्मैपयः प्रदापयति पयो वा ओषधयः पयः पयः अन्यतरान वा एष देवान्भागधेयेन दे व्यर्थयति ये यजमानस्य सायम् गृहमागच्छन्ति यस्य सायम् दुग्धकम् हविरार्तिमार्च्छति इन्द्राय व्रीहीन्निरुत्योपवसेत् पयो वा ओषधयः पर एवारभ्य गृहीत्वोपवसति यत्प्रातः स्यात् प्रच्छदम् कुर्यात् अथेतर ऐन्द्रः पुरोडाश स्यात् इन्द्रिये एवास्मै समीची दधाति पयो वा ओषधयः पयः पयः पयसैवास्मै पयो वरुन्धे अथोत्तरस्मेहविषेवत्सा नपाकुर्यात् सैव ततः ये यजमानस्य सायम् च प्रातश्च गृहमागच्छन्ति यस्योभयगम् हविरार्तिमार्च्छति अयीन्द्रम् पञ्चशरावमो धनम् निर्वतेत् अग्निम् देवतानाम् रसमय्यजेत् अग्निमुखा एव देवताः प्रीणाति अग्निम् वा अन्वन्या देवताः इन्द्रमन्वन्याः ता एवोभये एव प्रीणाति पयो, पया पया पयो वा ओषधयः पयः पयः पयसैवास्मैपयोवरुन्धे अथोत्तरस्मै हविषेवत्सा नपाकुर्यात् सैव ततः प्रायश्चित्तिः अर्धो वा एतस्य यज्ञस्य मीयते यस्य व्रत्तेऽहन्पत्न्यनालम्बुका भवति तामपरुद्ध्ययजेत सर्वेणैव यज्ञेन यजते तामिष्टोपह्वजेत अमोऽहमस्मि सा त्वाम् द्यौरहम् पृथिवी त्वाम् सा माहम् रक्त्वाम् तावेहि सम्भवाव सहरेतो दधावहै पुपुंसे पुत्राय वेत्तवै राजस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति अर्ध एवैनामुपह्वयते सैव ततः प्रायश्चित्तिः यद्यष्येनिहशम सियादनागतने नये अनागतन सियाजा वमीकन प्राजापत वै वल यजापति प्रजापतावे यतिपय भूरिखा भूत वै प्रजापति भूतिमेवोऽपैति तत्कृत्वा अन्याम् दुग्धा पुनरुहोतव्यम् सैव ततः प्रायश्चित्तिः यत्किटावपपन्नेन जोयात् अप्रजा अपशुर्यजमानः यदना स्यात् यदनायतनेन नयेत् अनायतनः स्यात् मध्यमेन पर्णेन द्यावापृथिव्ययच्चान्तः परिधि या वा पृथिव्योरेवैनत्प्रतिष्ठापयति तत्कृत्वा अन्यान् लुग्ध्वा पुनरुहोतव्यम् सैव ततः प्रायश्चित्तिः यदवपृष्टेन जुहुयात् अपरोपमस्यात्मञ्जायेत किलासोपास्यादर्शसोवा यत्प्रत्ययात् यज्ञम् विच्छिन्द्यात् सजुयात् मित्रो मित्रो जना मित्रो दाधार मित्रोजनाकल प्रजान मित्रोदाधार सत्याय मुत्याचे सत्याज व्यंघतवजुते मित्रेणय अन्याुग्ध् पुनर्होतव्यम सव तत प्रायश्चित्ति यत्पूर्वस्यामाहुत्यागम् हुतायामुत्तराहुतिः स्कन्देत् लिपाद्भ्यः पशुभिर्यजमानोऽव्युध्येत यदुत्तरयाभिजुहुयात् चतुष्पाद्भ्यः पशुभिर्यजमानोऽव्यध्येत यत्र मेद्धवनस्पते देवानाम् गृह्यानामानि तत्र हव्यानि गामयेति वानस्पत्यजर्चा समिधमाधाय तूष्णीमेव पुनर्जुहुयात् वनस्पतिनैव यज्ञः स्यार्ताञ्चानार्ताञ्चाहुतिविदाधार तत्कृत्वा अन्यान् दुग्ध्वा पुनरुहोतव्यम् सैव ततः प्रायश्चित्तिः यत्पुरा प्रयायेभ्यः प्राङ्गारस्कन्देत् अभ्यर्यवे जयजमाना गचाकग्गः स्यात् यद्दक्षिणा ब्रह्मणे च यजमाना गचाकग्रः स्यात् यत्प्रत्यग् होत्रे च पत्रियै च यजमाना यचाकग्रः स्यात् यदुदङ् अग्निधे च पशुभ्यश्च यजमाना यचाकग्रः स्यात् यदभिजुहृयात् रुद्रोऽस्य पशोन्घातुकः स्यात् स्रुवस्य बुद्ध्रेनाभिनिदध्यात् मातमो मायज्ञस्तमन्मायजमानस्तमते नमस्ते अस्त्वायते नमो रुद्रपराजते नमोजत्र निषीदसि अमम् मा हिगुंसेरमम् माहिगुंसेरिति येनस्कन्वेत् तम् प्रहरेत् सहस्रशृङ्गो वृषभो जातवेदाः स्तोमपृष्ठो घृतवान् सुप्रदीकः मानोहासेऽन्वेत्थितो नेत्वा जहाम ओपोषण् वीरपोषम् च गच्छेति ब्रह्मणैवैनम् प्रहरति सैव ततः प्रायश्चित्तिः विवा एष इन्द्रियेण वीर्येण्यते यस्याहिताग्नेरग्निर्मध्यमानो न जायते यत्रान्यम् पश्येत् तत आहृत्य अर्ग्नावेवास्याग्निहोत्रगुम्हुतम् भवति यद्यन्यन्न विन्देत् अजायागुम् होतव्यम् आग्नेयीवा एषा यदजा अर्ग्नावेवास्याग्निहोत्रगुम् हुतम् भवति अजस्य तु नाश्नीयात् यदजस्याश्नीयात् यामेवाज्ञा बाहुतिञ्जुहुयात् मद्यात् तस्य आदजस्य नाश्यम् यद्यजान्न विन्दे ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् एष वा अग्निर्वैश्वानरः तद्ब्राह्मणः अग्नावेवा स्याग्निहोत्रगम् हृतम् भवति ब्राह्मणम् तु वसत्यैनापरुन्ध्यात् यद्ब्राह्मणम् वसत्या अपरुन्ध्यात् यस्मिन्नेवाग्नावाहुतिम् जुहुयात् तम्भागधेयेन जे व्यर्धयेत् तस्माद्ब्राह्मणो वसत्यैनापरुद्ध्यः यदि ब्राह्मणम् न विन्देर् दर्भस्तम्बे होतव्यम् अग्निवान् वै दर्भस्तम्बः अग्नावेवास्याग्निहोत्रकम् हुतम् भवति दर्भादिस्तुनाध्यासीत यद्दर्भावध्यासीत या यामेवाज्ञावाहुतिञ्जुहुयात् तामध्यासीत तस्माद्दर्भानाध्यासितव्या आह यदि दर्भान्न विन्देत् अप्सु होतव्यम् आपो वै सर्वा देवता आह देवता स्वेवास्याग्निहोत्रकम् हृतम् भवति आपस्तु न पचक्षी यदापरीचक्षीताहुति पिचक्षीतो न पिचक्ष्या आह मेध्या चेध्या चनुपो सखं सृज्येत येरण्यनय सखं सृज्य अग्नये विविचये पुरोडाशमष्टाकपालम् निर्वपेत् मेध्याम् जैवास्य मेद्ध्याम् च तनुभोग्यावर्तयति अग्नये व्रतपतये पुरोडाशमष्टाकपालम् निर्वपेत् अग्निमेव व्रतपतिग्रस्वेन भागधेयेनोपधावति स एवैनम् व्रतमालम्भयति गर्भगस्रवन्तमगदमकः अग्निरिन्दस्पष्टा बृहस्पतिः पृथिव्यामवचुश्चोतैतत् नाभिप्राप्नोति निर्वृतिम् पराचैः रेतो वा एतद्वाजिनमाहिताग्नेः यदग्निहोत्रम् तद्यत्स्रवेत् रे रेतोऽस्य गर वाजिनग्स्रवेत् गर्भग्रस्रवन्तमगदमकरित्याह रेत एवास्मिन्वाजिनन्दधाति अग्निरित्याह अग्निरुमयि रेतोधाः रेत एव तद्दधाति इन्द्र इत्याह इन्द्रियमेवास्मिन् दधाति त्वष्टेत्याह त्वष्टा वै पशूनाम् मिथुनानागम् रूपकृत रूपमेव पशुसु दधाति बृहस्पतिरित्याह ब्रह्म बृहस्पतिः ब्रह्मणैवास्मै प्रजाः प्रजनयति पृथिव्यामवचुश्चोतैतदित्याह अस्यामेवैरत्प्रतिष्ठापयति नाभिप्राप्नोति निरृतिम्बराचैरित्याह रक्षसामपहत्यै याः पुरस्तात् उपरिष्टात् सर्वतश्च याः ताभिरश्मिपवित्राभिः श्रद्धा यज्ञमारभे रेवा गातुविदः गातुम् मनसस्पतिना देवेना पाताद्यज्ञः प्रयुज्यताम् त्रितेयस्यै दिवः गायत्रिजा सोम आभृतः सोमपीठाय सन्नयितुम् बकलमन्तरमाददे आप देवे शुद्धास्थ इमापात्राणि शुन्धत पयो वत्सेष पय इन्द्राजहविषेभ्युजःस्व गायत्रीपर्णवल्केन पयः सोमम् करोत्विमम् अग्निम् गृह्णामि सुरथञ्जोमजो भोः य उद्यन्तमारोहति सौर्यमह्ने आदित्यम् ज्योतिषाम् ज्योतिरुत्तमम् स्वो यज्ञाय रमताम् देवताभ्यः वसोऽन् इन्द्रेण सह देवताः ताः पूर्वः स्वागतने स्व आगतने मेषजाः प्रविष्टाः तान् देवान् परिगृह्णामि पूर्वः अग्निरहव्यवारिहतानावहतु पौर्णमासगम् हरिदमेषाम् मयि पामाभास्यगम् हरिदमेषाम् मयि अन्तराग्निपशवः देवसहंसदमागमन् तान्पोर्वः परिगृह्णामि स्व आगतनेम नेषजाः इह प्रजाविश्वरूपारमन्ताम् अग्निम् गृहवतिमभिसंवसानाः ताः पोर्वः परिगृह्णामि स्व आगतनेमेषाः इह पशवो विश्वरूपारमन्ताम् अग्निम् गृहवतिमभिसंवसानाः न्पोर्वः परिगृह्णामि स्व आगतनेमनेशजाः अयम् पितृणामग्निः अवाढव्यापिजिर्भ्यः तम्पोर्वः परिगृह्णामि अविषन्नः पितुम् करत् अजस्रन्त्वागुम्सभापालाः विजयभाधगुम् समिन्धताम् अग्नेऽीदायमे सभ्य विजित्यै शरदः शतम् अन्नमावसथीयम् अभिहराणि शरदः सदम् मन्त्रम् अहिर्बुध्रियो नियच्छद् वसुभ्यो यज्ञम् बब्रवीमि इदमहमिन्द्रज्येष्ठेभ्यः रुद्रेभ्यो यज्ञम् बब्रवीमि इदमहम् वरुणज्येष्ठेभ्यः आदित्येभ्यो यज्ञम् अयस्वतीरोषधयः अयस्वद्वीरुधाम् पयः अपाम्पयसोऽयत्पयः ते न मामिन्द्रसगंसृज अग्ने व्रतपते व्रतम् चरिष्यामि तच्छके यन्तन्मेराध्यताम् वायोव्रतपत आदित्यव्रतपते व्रतानाम् व्रतपते व्रतम् चरिष्यामि तच्छके यन्तन्मे राध्यताम् इमाम् प्राचीमुदीचीम् इषमोर्जमभिसर्गस्कृताम् बहुपर्णामशुष्टाग्राम् हरामि पशुपामहाम् यत्कृष्णो रूपम् कृत्वा प्राविशस्त्वम् वनस्पतेन ततस्त्वामेकविगंसतिधा सम्भरामि सुसम्भृता त्रीम् परिधेगस्तिस्रः समिधः यज्ञाजलनुसञ्चरान् उपवेशम् मे क्षणम् धृष्टिम् सम्भरामि सुसम्भृता राधाता ओषधयः देवेभ्यस्त्रियुगम् पुरा तासाम् पर्वराभ्यासम् परिस्तरमाहरन् अपाम् मेऽध्यञ्जज्ञियम् स देवगुम् शिवमस्तु मे आच्छेत्तावोमारिषम् जीवानि शरदः अपरिमितानाम् परिमिताः परिमिता सन्नह्ये सुहृतायकम् येनो मानिगाङ्कतमच्छनाहम् पुनरुत्थाय बहुला भवन्तु सकृदाच्छिन्नम् बर्हिरोर्नामृद शोरम् पितृभ्यस्त्वाभराम्यहम् अस्मै श्रीगन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सह त्रिवृत्पलाशे दर्भः यान् सम्मितः यज्ञे पवित्रं पोत्रतमम् पयो हव्यम् करोतु मे इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः आप्याययन्तौ सञ्चरताम् पवित्रे हव्यशोधने पवित्रे एस्थो वैष्णवी वायुर्वाम् मनसा पुनात् अयम् प्राणश्चापानश्च यजमानमपि गच्छताम् यज्ञेह्य भूताम् पोतारौ पवित्रे हव्यशोधने त्वया वेदिम् विविदुः पृथिवीम् त्वया यज्ञो जाजते विश्वदानिः अच्छिद्रम् यज्ञमन्देश विद्वान् त्वया होता सन्तनाप्यर्थमासान् त्रयस्त्रिगं शोसितन्तूनाम् पवित्रेण सहागहि शिवे जगुम् रज्जुरभिधानी अभ्ययामुपसेवताम् अप्रस्रगुंसाय यज्ञस्य मुखे उपदधाम् यहम् अशुभिः सन्नीतम् विभृताम् इन्द्राय श्रुतम् दधि उपवेशोऽसि यज्ञाय त्वाम् परिवेषमधारयन् इन्द्राय हविः कृण्वन्तः शिवः शग्मोभवासिनः अमृण्मयम् देवपात्रम् यज्ञस्यायुषि प्रयुज्यताम् तिरः पवित्रमतिनीताः आपोधारयमातिगोः देवेन स पित्रोत्पूताः वसवः सूर्यस्य रश्मिभिः गान्दोहपवित्रैरज्यम् सर्वा पात्राणि शुन्धता एता आचरन्ति प्रजापतेर्यशसो विश्वरूपाः बह्वेर्भवन्तिरुपजायमानाः इह वैन्द्रो रमयतु गावः पूषास्थ अयक्ष्मावः प्रजजासगम् सृजामि राजस्पोषेण बहुला भवन्तीः ओर्ध्वम् वयः पिन्वमाना जीवो जीवन्तिरुपवः सेयम् योश्चेमय यज्ञम् पृथिवी च सन्दुहाताम् धाता सोमेन सहवातेन वायुः यजमाना यद्रविणम् दधातु उत्सङ्गु हन्ति कलशम् चतुर्बिलम् पीडाम् देवीम् मधुमतीगुंसु वर्विदम् तदिन्द्राग्ने जिन्वतगुंसोऽनृतावत् तद्यजमानमृतत्ते दधातु कामधक्षः प्रणा इन्द्राजहविरिन्द्रियाम् अमोञ्जस्याम् देवानाम् मनुष्याणाम् पयोहिताम् बहुदग्धेन्द्रायदेवेभ्यः कव्यमाप्यायताम् पुनः वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पताम् यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्ततिमनुसन्तनौमि परस्तमसि विष्णवे यज्ञायापि दधाम्यहाम् अद्धिररिक्तेन पात्रेण याः पूताः परिशेरते अयम् वयः सोमम् कृत्वा स्वाञ्योनिमपि गच्छतु पर्णवल्कः पवित्रम् सौम्यः विष्णो हव्यगम् हि रक्षसि उभावग्नी उपसृणते देवता उपवसन्तु मे अहङ्ग्राम्यानुपवसामि मह्यम् गोपतये पशून् देवा देवेषु पराक्रमध्वम् प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशामागता इदपुंसकेजम् यदिजम् करोमि आत्माकरो त्वात्मनेः इदम् करिष्ये भेषजम् इदम् मे विश्वभेषजा अस्मिनाप्रावतम् युवम् इदमहगुंसेनाय अभे त्वर्यै मुखमपोहामि सोर्यज्योतिर्विभाहि महत इन्द्रियाय आप्याजताम् घृगजोनिः अग्निर्हव्यानुमन्यताम् खमङ्क्ष त्वच स्वरूपम् त्वावसुविदम् पशूनाम् तेजसा अग्रजे दुष्टमभिधारयामि स्योऽनन्ते सदनम् करोमि घृतस्य धारया सुषेवम् कल्पयामि तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणाम् मेधसुमनस्य मानः आर्द्रः गोपाः श्रुत यस्त आत्मा पशुसु प्रविष्टः देवानाम् विष्ठामनुयोवितस्थे आत्मन्वाम् सोमघृतवायि भूत्वा देवाम् गच्छसुवर्विन्दगजमानाय मह्यम् पिरा भूतिः पृथिवीरसोमोत्क्रमीत देवाः पितरः पितरो देवाः योऽहमस्मि समयजे यस्यास्मिनतमन्तरे स्वम् म इष्टग् स्वम् दत्तम् स्वम् पूर्तग् स्वग्रश्रान्तम् स्वगम् हुतम् कस्य मेग्निरुपद्रष्टा बाजुरुपश्रोता आदित्यानुख्याता द्योः पिता ज्यवीमाता प्रजापतिर्बन्धो य एवास्मिनयजे मा भेर्मा संविक्था मा, मा त्वाहिगुंसिषम् भरतमुद्धरे मनुषिम् च प्रत्यवदास्यामि नमस्ते अस्तु मामाहिपुंसीः यदवदानानि ते पद्यन् लिलोमाकार्षमात्मनः आज्येन प्रत्यनज्मेन पुनः अज्याजोऽयवमात्रात् आव्याधात्कृत्यतामिदम् मारुपामयज्ञस्य शुद्धग्रस्पष्टमिदगम् हविः मनुमादृष्टाम् घृतपदीम् नेत्रावरुणसमेरिताम् दक्षिणार्धादसम्भिन्दन् अवद्याम्ये ततो मुखाम् इडे भागञ्जुषस्वनः जिम्भगाजिम्बार्वतः स्यास्ते भक्षिवाणः स्याम सर्वात्मानः सर्वगणाः ब्रध्नबिन्वस्व ददतो मे माक्षाजि पूर्वतो मे मोपदशत् दिशाम् क्लप्तिरसि दिशो मे कल्पन्ताम् कल्पन्ताम् मे दिशः दैवीष्टमानुषीश्च अहोरात्रे मे कल्पेताम् अर्धमासा मे में में में में। भागं। मा सा मे कलता मे कलता मे कलतारि कलतालभ्यभ्यो अमृतेभ्यदं भूतसाध्यक्षे विधेमहिषाभज भरतागो भक्त निरभागं भज अपस्मिन्व ओषधेऽर्जिन्व दिवात्पाहि चतुष्पाद वा दिवो वृष्टिमेरज ब्राह्मणानामिदगुम् हरिः सोम्यानागुम् सोमपीथिना निर्भक्तो ब्राह्मणः मेहा ब्राह्मणस्यास्ति समङ्गाम् बर्हिर्हविषाघतेन समाधित्यैर्वसुभिः सम्मरुद्भिः समिन्द्रेण विश्वेभिर्देवेऽभिरङ्क्ताम् दिव्यम् न भो गच्छतु युत्स्वाहा इन्द्राणी वा विधवा भूजासम् अदितिरिवसु पुत्रास्थोरिक्ता गागृहवत्या उपनिषदेषु प्रजास्त्वाय सम्पत्नीपत्या सुकृतेन गच्छताम् यज्ञस्य युक्तौ धुर्याबभूताम् सञ्जाधानौ विजहतामरातीः युविज्योतिरजरमारभेताम् दशते तनवो यज्ञयज्ञियाः ताः प्रीणातिगजमानो भृजेन ना। नारिष्ठयोः प्रशमीडमानः देवानाम् दैव्येऽपि दे गजमानोऽ मृतोऽभूत् यम् वा अम् देवा अकल्पयन् ओर्जभागगंसत क्रतु एतद्वान् तेन प्रीणानि तृप्यतमगुं हौ अहम् देवानागुम् सुकृतामस्मि लोके ममेकमिष्टर्न मिथुर्भवाति अहम् नारिष्ठावन यजामि विद्वान् यदाहाभ्यामिन्द्रो अदधाद्भागधेयम् अदारसृद्भवत देव सोम अस्मिन् यज्ञे मरुतो मृणतानः मानो विददभिभावो अशस्तिः मानोविदद्विजनाद्वेष्याय वृषभम् वाजिनम् वजम् पूर्णमासं यजामहे स नो दोहतागम् सुमीर्यम् राजस्पोषकम् सहस्रिणम् प्राणायसुराधसे पूर्णमासाजस्वाहा अमाभास्यासु भगासुषेवा धेनुरिबभूय आप्यायमाना सानो दोहताकुम् सुवीर्यम् राजस्पोषकम् सहस्रिणम् अपानाय सुराधसे अमाभास्याये स्वाहा अधिस्त्रिणीः परिजेहि वेलिम् जामिम्माहि माहिगुंसीरमुयाशना हरिताः सुवर्णा आह निष्का इमे यजमानस्य ब्रध्ने परिस्रिणीदपरिधत्ताग्निम् परिहितोऽग्निर्यजमानम् भुनक्तो अपागुम् रस ओषधीनागुम् सुवर्णः निष्कानिवे यजमानस्य सन्तुका मधुघाः अमुत्रामुष्ण्यम् लोके भूपते भुवनपदे महतो भूतस्य पदे ब्रह्माणम् त्वावृणीमहे अहम् भूपतिरहम् भुवनपतिः अहम् अहतो भूतस्य पतिः देवेन समित्रा प्रसूत आर्त्विज्यम् करिष्यामि देवसवितरे तन्त्वा वृणते बृहस्पतिम् ब्रह्माणम् तदहम् मनसे प्रब्रवीमि मनोगायत्र्यै गायत्र्यी तृष्टुभे तृष्टुब्जगत्यै जगत्यनुष्टुभे अनुष्टुः पङ्क्तिः प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यः विश्वे देवा बृहस्पतये बृहस्पतिर्ब्रह्मणे ब्रह्म ब्रहंग भोर्भुवः सुवः बृहस्पतिर्देवानाम् ब्रह्मा अहम् मनुष्याणाम् बृहस्पते यज्ञम् गोपाय इदम् तस्मै हर्म्यम् करोमि यो वो देवास्तरति मेधावी दिक्षु मनसा तपस्वी अन्तर्दूतश्चरतिमानुषेषु चतुःशिखण्डायुवतिः सुपेशाः घृतप्रतीका भुवनस्य मध्ये मर्मृजमानामहते सौभगाय मह्यन्धुक्ष्वयजमानाय कामान् भूमिर्भूत्पामहिमानम् पुपोष ततो देवी यज्ञया यज्ञम् विचयन्ति सम् च ओषधीरापैहशक्वरीश्च यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टिदेवाः यः श्रुतेन हृदयेनेष्णता च तस्येन्द्रवज्रेण शिरश्छिनद्मि पूर्णामृदप्रथमानग्रस्योलम् देवेभ्योजुष्ठगुंसदनाय बर्हिः सुवर्गे लोके यजमानसंधेहि मान्नाकस्य पृष्ठे परमे व्योमन् चतुशिखण्डायुवतिः सुपेशाः धृतप्रतीका वयुनारिवस्ते निवस्ते सौभगाय सा मेधुक्ष्वयजमाना जकामान् शिवाच मे शग्मा चैधि श्योना च मे सुषदा चैधि ऊर्जस्वती च मेपजस्वती चैधि विषमोर्जम् मे पिन्वस्व ब्रह्मदेजो मे पिन्वस्व क्षत्रमोजो मे पिन्वस्व विषमृष्टिम् मे पिन्वस्व पशोन्मे पिन्वस्व अस्मिन् पशोन यज्ञ उपभोज इन्दुमे अविक्षोभाजपरिधीन् दधामि धर्ताधरणो धरीजान् अग्न्यर्द्वेषागुम्सि निलितोऽनुदाते विच्छिन्नग्निविधृतेभ्यागम् सपत्नान् जातान् भ्रातृव्यान् ये च निष्यमाणाः विशोजन्त्राभ्याम् विधमान्येनान् अहज्ञस्वानामुत्तमासानि देवाः विषोयन्त्रेऽनुदमाने अरातिम् विश्वम् पाप्मानममतिम् दुर्मरायुम् चीरन्ति देवी सुवृतस्य लोके धृते स्थो विधृते स्वधृति प्राणान्मयि धारयतम् प्रजाम् मयि धारयतम् पशोन्मयि अयम् प्रस्तर उभयस्य धत्ता धा प्रजाजानामुता नो याजानाम् सदाधार समिधो विश्वरूपाः तास्मै श्रुतो अध्यासा आरोहपथो जुहृदेवजानान् यत्र ऋषयः प्रथमजाये पुराणाः हिरण्यपक्षा गिरा बहासिमा वहासिमा यत्र लोकाः अवाहम् बाध उपभृता सपत्नान् जातान् भ्रातृव्यान् ये च जनिष्यमाणाः दोहै यज्ञकम् सुदुघामिवधेनुम् अहमुत्तरो भूयासम् अधरे मत्सपत्नाः योमा वाचा मनसा दुर्मरायोः हृदारादीयादभिदासदग्ने इदमस्य चित्तमधरम् ध्रुवाया आह अहमुत्तरो भूयासम् अधरे मत्सपत्नाः वृषभो सिषा क्वरः भृदाचेदागम् सूनुः प्रियेण नाम्ना प्रिये, प्रिये सदसिसीद स्यो नामे सीदसुषतः पृथिव्याम् प्रजय प्रजया पशुभिः लोके लोके दिवि सीदपृथिव्यामन्तरिक्षे अहमुत्तरो भूयासम् अधरे मत्सपत्नाः यज्ञस्थालीघृतस्य पूर्णा अच्छिन्नपनाः शतधार उत्सह मारुतेन शर्मणा देव्येन यज्ञोऽसि सर्वतः श्रितः सर्वतो माम् भूतम् भविष्यक्षयताम् शतम् मे सन्त्वाशिषः सहस्रम् मे सन्त सोदृता आह इरावदेः पशुमते एः प्रजापतिरसि सर्वतश्रितः सर्वतो माम् भूतम् भविष्यच्छयताम् शतम् मे सन्त्वाशिषः सहस्रम् आह इरावदेः पशुमते एः इदमिन्द्रियममृतम् वीर्यम् अनेनेन्द्रायपशवो चिकित्सन् तेन देवा अवतोपमाम् इहेषमोऽर्भ्यञ्जशः सह कोजः सनेयम् श्रुतम् येनोपरिष्टा दधिनान्महेन्द्रम् दधिमान्धिनात् अयम् वेदः पृथिवीमन्वविन्दत् गुहासते गहनेगह्वरेषु सविन्दतु यजमानाय लोकम् अच्छिद्रम् यज्ञम् भूरि कर्मा करोतु अयम् यज्ञः समसदध्वविष्मान् चासाम्राजिषा देवताभिः तेन लोकान् स्वोर्जवतो जजेम इन्द्रस्य सक्षमममृतत्वमस्याम् यो नः कडीज इह कामजातै अस्मिन् यज्ञे यजमाना यमह्यम् अपतमिन्द्राग्नेभवनान्नुदेताम् अहम् प्रजाम् वीरवतीम् विदेय अग्ने वाजजित् वाजन्तासरिष्यन्तम् वाजञ्जेष्यन्तम् वाजिनम् वाजजितम् वाजजित्याजै सम्मार्ज्वि अग्निमन्नादमन्नाद्याय उपहोतोद्योः पिता उपमान्द्योः पिता ह्वजताम् अग्निराग्नेघ्रात् आयुषे वर्चसे जीवात्ते पुण्याय उपहोता पृथिवी माता उपमाम् माता पृथिवीह्वयताम् अग्निराग्नेघ्राद् आयुषे वर्तसे जीवात्वे पुण्याया विच्छिन्नम् यज्ञकम् समिमं दधातु बृहस्पतिस्तनुतामिमन्नः विश्वे देवा द्विहमादयन्ताम् यन्ते अग्न आवृष्टामि अहम् वा नीचैर्देवानिपृश्चत अग्नेजो नोभिधासति समानो यश्च निष्ट्यः विधस्येव प्रक्षालतः मातस्योच्छेष किञ्चन क्यो मान्देष्टिजातवेदः यम् चाहन् वेष्मियश्च माम् सर्वागस्तानग्नेसन्दः यागिश्चाहन्देष्मिये च माम् अग्नेवाचजित् वाजन्त्वा ससृवागम्सम् वाजन्दिवागम्सम् वाजिनम् वाजजितम् वाजजित्यादि सम्माध्नि अग्निमन्नादमन्नाद्याय येजर्बर्हि श्रुतगम् हविः यध्मः परिधयस्रुचः वाज्यम् यज्ञरुचो यजुः याज्याश्च वषट्काराः सम्मे सन्नतयो न मन्ताम् विध्मसन्नहने हुते विवह्खीलोपततः पृथिव्याध्यक्षितः तेना सहस्रकाण्डेन द्विषन्तकुं शोचयामसि द्विषन्मे बहुशोचत ओषधेमो अहगुं शुचम् यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे सन्तिष्ठस्व श्योनेन मे सन्तिष्ठस्व ब्रह्मवर्क्षसेन मे सन्तिष्ठस्व यज्ञस्यर्धिमनुसन्तिष्ठस्व उपते यज्ञनमः उपते नमः उपते नमः रिष्फली क्रियमाणानाम् योऽङ्गो अवशिष्यते रक्षसाम्भागधेयम् आपस्तत्प्रवहतादितः मुलोखले मुसले यच्छसोऽर्पे आशिश्लेषदृषदि कपाले अवप्रशो विप्रुषः सङ्गचामि विश्वे देवा हविरिज्जुषन्ताम् यज्ञेया विप्रुषः सन्ति बह्वेः अग्नौताः सर्वाः स्विष्टाः सुहृता जुहोमि उद्यन्नमित्रमहः सपत्नान्मे अनेन सह दिवैनानि विद्युता जहि निम्रोचन्नधरान् रृधि उद्यन्नद्य विनो भज पिता पुत्रेभ्यो यथा दीर्घायुत्वस्य हे शिषे तस्य नो देहि सूर्व्य हृद्यन्नमित्रमहः आरोहन्वृत्तराम् लिमम् हृद्रोगम् मम सूर्व्य हरिमाणम् च नाशय शुकेषु मे हरिमाणम् रोपणाकासु दसि अथोहारि द्रवेषु मे दिशेन सहसा सह द्विषन्तम् मम रन्धयन् वो अहम् द्विषतो रथम् यो उषाश्च तस्मैरिम् वृक्ष सर्वम् पापगम् समूहताम् यो नः सपत्नो यो देवाः विध्मस्येव प्रक्षायतः मा अवसृष्टः परापद शरो ब्रह्मसगंसितः गच्छामित्रान् प्रविश मैषाम् कञ्चनोच्छिषः सक्षेदम्बस्य विधक्तरिदम्बस्य नाकेदम्बस्य रमतिः पनिष्ठा ऋतम्बरिषिष्ठम् अमृतायान्याहुः सोर्यो वरिष्ठो अक्षभिरविभाति अनुद्या वा पृथिवी देवपुत्रे दीक्षासि तपसो योनिः तपोसि ब्रह्मणो योनिः ब्रह्मासि क्षत्रस्य योनिः क्षत्रमस्य कृतस्य योनिः ऋतमसि भोरारभे श्रद्धाम् मनसा दीक्षाम् तपसा विश्वस्य भुवनस्याधिपत्नीम् सर्वे कामा यजमानस्य सन्तु पातम् प्राणम् मनसाम् वारभामहे प्रजापति यभुवनस्य गोपाः सणामृत्यास्त्रायताम् पार्वगम्हसः योज्जीवाजरामशीमहि इन्द्रशाक्वरगायत्रीम् प्रपद्ये ताम् ते जनज्मि इन्द्रशाक्वरतृष्पुभम् प्रपद्ये ताम् ते जनज्मि प्रपद्ये ताम् ते इन्द्रशाक्वरा निष्पुभम् प्रपद्ये ताम् ते जुनज्मि इन्द्रशाक्वरपङ्क्तिम् प्रपद्ये ताम् ते जुनज्मि आहम् देक्षामरुहमृतस्य पत्नी गायत्रेण छन्दसा ब्रह्मणा च ऋतगम् सत्येधाजि सत्यमृतेधाजि ऋतम् च मे सत्यम् चाभूताम् ज्योतिरभोपगुम्सुपरगमम् स्वर्गम् लोकम् नाकस्य पृष्ठम् ब्रह्नस्य पृष्टपमगमम् पृथिवी दीक्षा तयाग्निर्देक्षजा दीक्षितः तयाग्निर्देक्षया दीक्षितः दीक्षा तया वाजुर्देक्षया तया आत्त्वा दीक्षजा दीक्षयामि द्योऽर्धेक्षा तयादित्यो दीक्षजा दीक्षितः ययादित्योदीक्षजा दीक्षितः तया आत्त्वा दीक्षजा दीक्षयामि आपोदीक्षा तया वरुणो राजा दीक्षया देक्षितः यया वरुणो राजा दीक्षया दीक्षितः तया आ त्वा देक्षया दीक्षयामि ओषधयो देक्षा तया राजा देक्षया दीक्षितः यया सो मो राजा दीक्षया दीक्षितः तया आ त्वा दीक्षया देक्षयामि वाग्दीक्षा तया प्राणोदीक्षया देक्षितः यया प्राणोदीक्षया देक्षितः तया त्वादीक्षया देक्षयामि पृथिवे त्वादेक्षमाणमनुदेक्षताम् अन्तरिक्षम् त्वादेक्षमाणमनुदेक्षताम् ययोस्त्वादेक्षमाणमनुदेक्षताम् दिशस्त्वादेक्षमाणमनुदेक्षन्ताम् आपस्त्वादीक्षमाणमनुदीक्षन्ताम् ओषधयस्त्वादेक्षमाणमनुदेक्षन्ताम् वाक्त्वादेक्षमाणमनुदेक्षताम् ऋतस्त्वादेक्षमाणमनुदेक्षन्ताम् सामानित्वादेक्षमाणमनुदेक्षन्ताम् यजोगुंषित्वादेक्षमाणमनुदेक्षन्ताम् अहश्च रात्रिश्च कृषिश्च वृष्टिश्च त्रिषिश्चापचितिश्च आपश्चौषधयश्च ऊर्चसूनृता च तास्त्वादीक्षमाणमनुदीक्षन्ताम् स्वेदक्षे दक्षपिते हसीद देवानागम् सुंनोमहतेरणाय स्वासस्थस्तनुवासंविशस्व हि ते वैधिसोनव आ सुषेवः शिवो मा शिवमाविश सत्यम् तपो मे प्रतिष्ठा सरिद्रप्रसोतामादिशो दीक्षयन्तु सत्यमस्मि अहम् त्वदस्मि मदसि त्वमेतत् ममाशयोनिस्तपयोनिरस्मि ममैव सन्वहव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेदः आजुह्वानः सुप्रतीकः पुरस्तात् अग्ने स्वायोनिमासीदसाध्या स्मै सध स्थे अभ्युत्तरस्मिन् विश्वे देवायजमानश्च सीत एकमिषे विष्णुस्त्वान् वेतु द्वे ऊर्जे विष्णुस्त्वान् वेतु त्रीणि व्रताय विष्णुस्त्वान् वेतु चत्वारिमाजो भवाय विष्णुस्त्वान् वेतु पञ्चपशुभ्यो विष्णुस्त्वान् वेतु षड्राजस्पोषाय विष्णुस्त्वान् वेतु सप्तसप्तभ्यो होत्राभ्यो विष्णुस्तान्वेतु सखायः सप्तपदा बभूव सख्यन्ते गमेयम् सख्यात्ते मायोषम् सख्यान्वे मायोष्ठाः सा ससुब्रह्मण्ये तस्यास्ते पृथिवीपादः सासिसुब्रह्मण्ये तस्यास्तेऽन्वरिक्षम् पादः सासिसुब्रह्मण्ये तस्यास्ते द्यौः पादः सासि सुब्रह्मण्ये तस्यास्ते दिशः पादः परोरजास्ते पञ्चमः पादः सा न इषमोर्जम् धुक्ष्वा तेज इन्द्रियम् ब्रह्मवर्चसमन्नाद्यम् यीने त्वापजस्वतीम् देवाना क्षेमो अस्तु नः इमा नराः कृणुतवे निमेत्य वसुमतीगम् रुद्रवतीमादित्यवतीम् वर्ष्मदिवः नाभापृथिव्याः यथाय यजमानो नरिष्येत् दे। देवस्य सविदुःसवे चतुष्खण्डाय वर्यः सुपेशाः धृतप्रतीका मध्ये तस्यागुंसुपन्नावधियौ निविष्टौ र्देवानामधिभागधेयम् अपजन्यम् भयम् नुत अपचक्राणि वर्तय गृहगुम् सोमस्य गच्छतम् न वा उवेतम् म्रियसे नरिष्यसि देवागुम् इदेशि पृथिभिः सुगेभिः सुकृतो नापि दुष्कृतः तत्रत्वा देवस्य यदस्य पारे रजसः शुक्रम् ज्योतिरजायत तदन्नः परिषदति द्विषः अग्ने वैश्वानरः स्वाहा यस्माद्भीषा वासिष्ठाः ततो नो अभयम् कृधि प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्रायमेढुषेः यस्माद्भीषान्म्यशलः ततो नो अभयम् कृधे प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्रायमेढुषेः उदुस्रतिष्ठप्रतिष्ठमारिषः मे मै यज्ञैयजमानञ्चरीरिषः सुवर्गे लोके यजमानगृंहिधेहि सन्नयेऽधि द्विपदेशम् चतुष्पदे यस्माद्भीषावेपिष्ठाः पलायिष्ठाः समज्ञाः स्थाः ततो न अभयम् कृधि प्रजाभ्यः सर्वाभ्यो मृडा नमो रुद्रायमेधुषे य इलमकः तस्मै नमः तस्मै स्वाहा न वा उवेतम् म्रियसे आशानाम् त्वा विश्वा आशा आह यज्ञाश्रहेस्तृत्वियोः इन्द्राघ्नि चेतनस्य च हुता हुतस्य दृप्यतम् अहुतस्य हुतस्य च हुतस्य च अहुतस्य हुतस्य च इन्द्राघ्नी अस्य शोकस्य गीतम् पिबतञ्जुषेथाम् मायजमानन्तमो विदते मर्त्विजोमो इमाः प्रजाः मायः सोममिमम् पिबाते सगुंसृष्टमुभयम् कृतम् अनागसस्त्वाभयम् इन्द्रेण प्रेषिता उप वायुष्टे अस्त्वगुंशभोः मित्रस्ते अस्त्वगुंशभोः वरुणस्ते अस्त्वगुंशभोः अपाङ्क्षया ऋतस्य गर्भाः भुवनस्य गोपास्येनातिथयः पर्वतानाम् ककुभः प्रयुतो न पातारः भग्ननेन्द्रगृह्वयत घोषेणामीवागिश्चातयत युक्तास्थवहत देवाग्राबाण इन्दुरिन्द्र इत्यवादिषुः एन्द्रमचुच्यवः परमस्याः परावदः आस्मात्सधः स्थात् ओरोरन्तरिक्षात् और आसुभूतमसुषभुः ब्रह्मवर्चसम् महासुषभुः समरे रक्षागस्य वधिषुः अपहतम् ब्रह्मज्यस्य वाक्चत्वामनश्च श्रेणीताम् प्राणश्चत्वापानश्च श्रेणीताम् चक्षुश्चत्वाश्रोत्रम् च श्रेणीताम् रक्षश्चत्वाबलम् च श्रेणीताम् ओजश्चत्वासहश्च श्रेणीताम् आयिश्चत्वाजराचश्रेणीताम् आत्मा चत्वा तनूश्च श्रेणीताम् श्रुतोऽसि श्रुतम् कृतः श्रुता गत्वा श्रुतेभ्यस्त्वा यमिन्द्रमाहुर्वरुणय्यमाहुः यम् मित्रमाहुर्यमु सत्यमाहुः यो देवानाम् देवतमस्तमोजाः तस्मै त्वा तेभ्यस्त्वा मयित्यदिन्द्रियम् महत् मयि दक्षो मयि धायि सुवीर्यम् त्रिशु घर्मो विभातु मे आकोत्यामनसा सह विराजाज्योतिषासह यज्ञेन पयसासह तस्य दोहमशीमहि तस्य सुम्नमशीमहि तस्य भक्षमषीमहि वाग्जुषाणासोमस्य तृप्यतो मित्रो जनान् प्रसमित्र यस्मान्न परो अन्यो अस्ति या विवेशभुवनानि विश्वा प्रजापतिः प्रजया संविदानः त्रीणि ज्योतेगुंषि सचते स षोडशी एष ब्रह्माय ऋत्विजः इन्द्रो प्रते महे विदथे शगुंसि शगुंहरी य ऋत्विजः प्रते वन्वे मनुषो हर्यतम् वदम् इन्द्रो रामघृतान्वयः हरिभिश्चाधुसे च ते श्रुतो गण आत्वा विशन्तो हरिवर्पसङ्गिरः इन्द्राधिपतेऽधिपतिस्त्वम् देवानामसि अधिपतिम् माम् आयुष्मन्तम् वर्चस्वन्तम् मनुष्येषु कुरु इन्द्रश्च राजा तौ ते भक्ष्यम् भक्षयामि वाग्जुषाणा सोमस्य तृप्यतो प्रजापतिर्विश्वकर्मा तस्य मनो देवम् यज्ञेनराध्यासम् अर्थे गा अस्य चहितः अवसानपतेऽवसानम् मे विन्द नमो रुद्रायवास्तोष्पतये पायने उद्याने तत्परायणे आवर्तने विवर्तने योगोपायचितगुम्भुवे यान्यपामित्यान्यप्रती यमस्य बलिनाचरामि यहैव सन्तः प्रति तद्यातयामः जीवा जीवेभ्यो विह रामजेन अनर्णा अस्मिन्नर्णाः परस्मिन् तृतीये लोके अनर्णा स्याम एते भजाना उदपि आह सर्वान् अथो अनर्णा आक्षीयेम इदमोऽश्रेयो वसा नमागन्व शिबे उभे इमे गोमग्धनवदश्ववदोर्जस्वत् स्वीरावीरैरनुसञ्चरेम अर्कः पवित्रगुम् रजसोऽभिमानः पुनातिदेवानाम् भुवनानि विश्वाः द्यावापृथिवीपयसा संविधाने घृतम् दुहाते अमृतम् प्रपीने पवित्रमर्को रजसोऽभिमानः पुनातिदेवानाम् भुवनानि श्रीमहि गाधमुदप्रतिष्ठाम् उदस्ताम् सीत् सविता मित्रो अर्यमा सर्वानमित्रानवधीद्युगेन बृहन्तम् मामकरदीरवन्तम् रथन्तरेश्रयस्व स्वाहा पृथिव्याम् कामदेव्येश्रयस्व स्वाहान्तरिक्षे बृहतिश्रयस्व स्वाहा दिवि बृहता त्वोपस्तभ्नामि आत्वादेवयशसेवीर्द्याय च अस्मास्वद्भिजा यूयम् दधाथेन्द्रियम् पुदः यस्ते द्रप्सो यस्त उदर्शः दैव्यः केतुर्विश्वम्भुवनमा विवेश स नः स्वाहा अनुमा सर्वो यज्ञोयमेत विष्टे देवा मरुतः मार्गः आप्रियच्छन्दागुंसि निविदो यजोगुंसि अस्यै पृथिव्यै यद्यज्ञियम् प्रजापतेर्वर्तनिमनुवर्तस्व अनुवीरैरनुराध्यामगोभिः अन्वश्वैरनु सर्वैरुपुष्टैः अनुप्रजयान्विन्ध्रियेण देवानो यज्ञमृजुधानयन्तु प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु प्रतिप्रजायाम् प्रतितिष्ठामि भव्ये विश्वमन्याभि वा वृधे तदन्यस्यामभिश्रितम् दिवे च विश्वकर्मणे पृथिव्यै चाकरम् नमः अस्कान्द्योः पृथिवीम् अस्कानुषभोजुवागाः स्कन्ने मा विश्वाभुवना स्कन्नो यज्ञः प्रजनयतो अस्कानुजनिप्राजनि आस्कन्नाग्जायते वृषाः स्कन्नात्प्रजनिषीमहि ये देवा येषामिदम्ब गधेयम् बभूव येषा अम् प्रयाजा याजाः इन्द्रज्येष्ठेभ्यो वरुणराजभ्यः अग्निहो दृभ्यो देवेभ्यः स्वाहा उतत्या नो दिवा मतिः अदितिरूप्यागमत् साशन्ताचीमयस्करत् अश्विनाः यूयातामस्मद्रपः अपस्रिधः शमग्निरग्निभिस्करत् शन्नस्तपतु सूर्यः शम् वातो वाक्त्वरपाः अपस्रिधः तदित्पदन्न विचिगेत विद्वान् यन्मृजः पुनरप्येति जीवान् त्रिवृद्ध्यद्भुवनस्य रथमृज् जीवो गर्भो न मृतः स जीवान् प्रत्यस्मै अरङ्गमाय जग्मदे अपश्चाद्दघ्वने नरेः इन्दुरिन्दुमवागात् इन्दोरिन्द्रोपात् तस्य त इन्दरिन्द्रपीतस्य मधुमतः उपहूतस्योपहूतो भक्षयामि ब्रह्म प्रतिष्ठा मनसो ब्रह्मवाचः ब्रह्म यज्ञानादुम् हरिषामाज्यस्य अतिरिक्तम् कर्मणो यच्च हीनम् यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् स्वाहा कृताहुतिरेतु देवान् आश्रावितमत्याश्रावितम् प्रषकृतमत्यनोक्तम् च यज्ञे अतिरिक्तम् कर्मणो यच्च हीनम् अरायो अस्माकम् अभिदुच्छुनायते अन्यत्रास्मन्मरुतस्तन्निधेतन ततम् महापस्तदुदायते पुनः स्वाधिष्ठाधीतिरुचथा यशस्यते अयगुम् समुद्र उत विश्वभेषचः स्वाहाकृतस्य समुदर्प्नुतर्भुवः उद्वयम् तमसस्परि उदृत्यञ्चित्रम् इमम् मे त्वन्नो अग्ने अग्ने त्वमग्ने अजासि प्रजापते इमम् जीवेभ्यः परिधिन् दधामि मैषान्नुगादपरो अर्धमेतम् सदम् जीवन्तु शरदः पुरोचेः तिरोमृत्युम् दधताम् पर्वतेन इष्टेभ्यः स्वाहा वषणनिष्टेभ्यः स्वाहा भेषजन्तुरिष्टे स्वाहा निष्कृत्ये स्वाहा गौरार्ध्ये स्वाहा दैवीभ्यस्तनोभ्यः स्वाहा वृद्ध्ये स्वाहा सुवृद्ध्ये स्वाहा यत इन्द्रभयामहे कतो न अभयम् कृधि मघवञ्छितवतन्न ऊतये विद्विषो विमृधो जहि स्वस्तिदा विषस्पतिः वृत्रहाविमृधो जि स्वस्तिदा अभयङ्करः आभिर्गेऽर्भिर्यदतो न ऊनम् आप्याजय हरिवो वर्धमानः यदा स्तो त्रिभ्यो अधते स्याम अनाज्ञातम् यदा ज्ञातम् यज्ञस्य क्रियते मिथो अग्नेतदस्य कल्पया त्वगुन्हिवेद्ध पुरुषसंमितो यज्ञः यज्ञः पुरुषसंमितः त्वं हि वेद्ध यथा तथम् यत्पाकर्त्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्ता सह अग्निष्टद्धोता आकृतविद्विजानन् यजिष्ठो देवागमृतसो यजाति यद्देवादेवहेडनम् देवासश्च देवा कृमाभयम् ऋतस्यर्ते न माहुत वाचा नृतमो दिम अग्न्यर्मा तस्मादेन सह दार्हपत्यः प्रमुञ्चतो दुरितायानि च कृमा करोतु मामनेन सम् ऋतेन द्या वा पृथिवी ऋतेन त्वकं सरस्वती कृतान्मा मुञ्चतागुम्हसः यदन्यकृतमारिमा स जातशकुंसादुत वाजामि शकुंसात् जायसः शकुंसादुत अना ज्ञातृत तस्माद मुझी यद्वाचा जन्मसा बहुभ्या मोरुभ्याभ्याश्नदत अर्मा तस्माद यहां चकषाणी अक्षाण्वपजिघ्न मन दूरे पशाच राष्ट्रभिच तान्यप्सरसावनुदत्तामृणानि अदीव्यनृणञ्यदहम् चकार यद्वादा स्याम् सन् चकारादनेभ्यः अग्निर्मातस्मादेन सह यन्मयि माता गर्भे सति येनश्चकार यत्पिता अग्निर्मातस्मादेन सह यदा पिपेषमातरम् पितरम् पुत्रः प्रमुदितोधयन् अहिगुंसितौ पितरौ न जातत् तदग्ने अणो भवामि यदन्तरिक्षम् उतद्याम् यन्मातरम् पितरम् वाजिहिगुंसिम अग्निर्मातस्मादेन सह यदाशसा निशसा यत्पराशसाः यदेनश्च घृमा नूतनै यत्पुराणम् अग्निर्मातस्मादेन सह अतिक्रामामि दुरितै यदेन जहामिरिप्रम् परमे सधस्थेः यत्रयन्ति सुकृतो नापि दुष्कृतः हा। तमारोहामि सुकृतान्नु लोकाम् त्रिते देवा अमृजतैतदेनः त्रित एतन्मनुष्येषु मामृजे ततो मा नशे अग्निर्मा तस्मादेन सह गार्हप्रत्यः प्रमुञ्चतो दुरितायानि च कृम करोतु मामनेन सम् दिवि जाता अप्सु अथो या अग्निजा आपः तानः शुन्धम् तु शुन्धनीः यदापो नक्तम् तु नितम् च रामः यद्वादिवा नूतनम् हिरण्यवर्णास्तद उत्पुनीतनह इमम् मे त्वन्नो अग्ने स अग्ने त्वमग्ने अजासि यत्ते ग्राविण्णाचिच्छिदुः सोम राजन् प्रियाण्यङ्गानि स्वधितापरो पुंसि तत्सन्धः स्वाज्येनो तमर्धजस्व अनाघसो अधमित्सङ्क्षयेम यत्ते ग्रावाबाहुच्युतो अचुच्योः नरो यत्ते दु दुहर्दक्षिणेन तत्त आप्यायताम् दत्ते इष्ट्यायताम् देव सोम यत्ते त्वचम् विभितुर्यच्चयोनिम् यदा स्थानात्प्रच्युतो वेन सिक्मना नः सन्धासत्परमे व्योमम् अहाच्छरीरम् वयसा समेत्य अन्योऽन्यो भवति वर्णो अस्य तस्मिन्वयमुपहूतास्त्रवः स्मः आलोभजसदसि विश्वरूपे व्रजक्षाः सोम उदशश्रुगस्तु उपक्षरन्दिजुक्त्वा घृतेन प्रियाण्यङ्गानि तव वर्धयन्तेः तस्मैते सोमनमजिद्वषट् च उपमाराजान् स्वकृते ह्वयस्व सम्प्राणापादाचक्षुषा त्वम् चक्षुश्रेण गच्छस्व सोमराजन् यत्त आस्थितघं समुतत्ते अस्तु जानीतान्नः सङ्गमनेपथेनाम् प्रकास एतञ्जानीतात्परमेऽभ्यामम् प्रकासधस्थापिदरोपमस्य यदा गच्छात्मसुखर्देजानीः इष्टापूर्ते कृणतादाविरस्मै हरिष्टो राजन्नगतः परे हि नमस्ते अस्तु चक्षसे रघोजते नाकमारोहसह यजमानेन ना। सौर्यम् गच्छतात् परमेऽभ्यामम् देवः सवितावञ्जोनुनः इदानीमह्न उपवाच्यो नृभिः विजारना भजति मानवेभ्यः श्रेष्ठम् न अत्र द्रविणम् यथा दधत् उपनोमित्रावरुणा विहावतम् अन्वागे ध्याथामिहनः सखाया आदित्यानाम् प्रसितिर्हेतिः रुग्रासतापाष्ठाघविषा परिणोमृणक्तो आप्यायश्वसन्ते यद्दिदीक्षे मनसा यच्च वाचा यद्वा प्राणैश्चक्षुषा यच्च श्रोत्रेण यद्रेतसा मिथुरेनाप्यात्मना अद्भ्यो लोकादधिरेते च इन्द्रियम् शुक्रादीक्षायैतपसो विमोचनेः आपो विमोक्त्रेर्मयिते च इन्द्रियम् यदृचासाम् नायजुषा अशूनाञ्चर्म न हविषादिदीक्षे यच्छन्दोभिरोषधेभिर्वनस्पतो अभ्यो लोकादधिरेते च इन्द्रियम् शुक्रादीक्षादि तपसो विमोचनेः आपविभोक्त्रेऽर्मयिते च इन्द्रियम् येन ब्रह्म येन क्षत्रम् येनेन्द्राग्ने प्रजापतिः सोमा वर्णो येन निश्चेदेवार्षयोजेन प्राणाः अध्यलोकादधिरे ते च इन्द्रियजम् शुक्रादेक्षादेतपसा विवाचनेः हविस्वाहा अपाम् सोमस्य प्रियम् धाम इन्द्रस्य प्रियतमगुम् हविस्वाहा अवाम् पुष्पमस्योषधीनागुम्रसः सोमस्य प्रियम् धाम विश्वेषाम् देवानाम् प्रियतमगुम् हविस्वाहा अजगुम् सोमह्रदे तव मनस्तनोऽषु किप्रतः प्रजावन्तो असीमहि देवेभ्यः पितृभ्यः स्वाहा सोम्येभ्यः पितृभ्यः स्वाहा कव्येभ्यः पितृभ्यः स्वाहा देवास इहमादयध्वम् सोम्यास इहमादयध्वम् कव्यास इहमादयध्वम् अनन्तरिताः पितरः सोम्याः सोमपीठात् अपै तु वृत्तिरमृतम् न आगन् वैवस्वतो न अभियम् कृणोत् पर्णम् वनस्पतेरिव अभिनःशीयतागुम्रयिः स च तान्नश्चेपतिः अरम्रत्यो अनुपरे हि पन्था यस्ते स्व इतरो देवजानाथ चक्षुष्पदे शृणते ते एब्रवीमि मानः प्रजागुम्रीर्षो मात वीरान् इदमोऽनुःश्रेयोभसानमागम्म यद्गोचिद्ध नजिदश्र्वजिद्यत् पर्णम् वनस्पतेरिव अभिनश्यीयदा गुम्रयिः सततान्नश्यचीपतिः इति तृतीयाष्टः सप्तमप्रश्नः समाप्तः